श्रीमद्भागवत्महापुराणं द्वादशस्कन्ध अथ दसमोऽध्यायः मार्कण्डेजीको भगवान् शङ्कर का प्रदानं श्रुत्वाच स एवमनुभूयेदं नारायणविनिर्मितं वैभवं योगमायायास्तमेव शरणं ययौ मार्कण्डेवाच प्रपन्नोऽस्म्यङ्घ्रिमूलं ते प्रपन्ना प्रपन्नाभयदम् हरे जन्मायवयापि विबुधा मुह्यन्ते ज्ञानकाशया श्रोतुवाच तवेवं निभृतात्मानं मृषेण दिवि पर्यटन् रुद्राण्या भगवान् रुद्रो ददर्श स्वगुणैर्मितः अथो मा तमृषे वीक्ष्य पश्येमं भगवन् विप्रं निभृतात्मेन्द्रियाशयं निभृतो दजं श्यां स वाम्रातं वातापाये यथार्णवं कुर्वस्य तपस साक्षात् संसिद्धं सिन्धितो भवान् श्रीभगवानुवाच नैवेक्षत्याशिष क्वापि ब्रह्मर्षि मोक्षमप्युत भक्तिम् परां भगवती लब्धवान् पुरुषे व्यये अथापि संवदिष्यामो भवान्त्ये तेन साधूनाम् अयं हि परमूलाभोढूनां साधु समागमः श्रोत्वाच यच्क्त्वा त्वमपेयाय भगवान् स सतां गतिः ईशान सर्वविद्यानाम् ईश्वर सर्वदेहिनाम् तयोरागमनं साक्षाद् ईशयोर्जगतात्मनो न वेदरुद्धती वृत्ते आत्मानं विश्वमेव च भगवान् तद्विज्ञाय गिरिशो योगमाययाम् आविसदत्तदहू गुहाकाशं वायुच्छिद्रमिवेश्वर आत्मन्यपि शिवं प्राप्तं तडित्पिङ्गजटाधरम् त्र्यक्षं दशभुजं प्रांसुर् उद्यन्तम् इव भास्करम् व्याघ्रचरमाम्बरधरं शूलखट्वाङ्गचर्मभी अक्षमालाडमरुकपुन्पालासिनूचः बिभ्राडं सहसाभातं विचक्ष्य श्रीविस्मितः किमिदं कुत एवेति समाधिर्विरितो मुनिः नेत्रे उन्मिल्य यजषे शगणं सोमयागतं रुद्रं त्रिलोकैकगुरुं न नाम शिरषामुनिः तस्मै सपर्यां विदधा शगणां सोमयां स्वागतासमुपाद्यार्घगन्धस्रधूपदीपकैः आह चात्मानुभावेन पुणकामस्य ते विभो करवाम किमीशानायेनेदं निमृतं ने जगन् नमः शिवाय शान्ताय सत्त्वाय प्रवीणाय च व्रजोजुषेऽप्यघोराय नमस्तुभ्यं तमोजुषे श्रुतुवाच एवं सुतशां भगवान् आदिदेव सतां गतिः परितुष्ट प्रसन्नात्मा प्रहसन्तमभासत